मार्कण्डेयपुराणम् अध्यायं सिक्स्टिवन् क्रौष्टुगिरुवाच कथिदं भवदा सम्यक् यत्पृष्टोऽसि महामुने भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः तेषाञ्चैव प्रमाणं नक्षत्राणां च संस्थितिः भूरादयस्तथा लोकाः पादालान्यखिलान्यपि स्वायम्भुवं तथाख्यादं मुने मन्वन्तरं मम तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै मन्वन्तराधिपान् देवान् ऋषींस्ततनया नृपान् मार्कण्डेय उवाच मन्वन्तरं मया ख्यादं तव स्वायम्भुवं च यद स्वारोचिशाख्यमन्यत्तु शृणु तस्मादनन्तरम् कश्चिद्विजाधिप्रवरः पुरे भूदरुणास्पदे वरुणायास्तडे विप्रो रूपेणात्यश्विनावी मृदुस्वभावसद्वृत्तो वेदवेदाङ्गपारगः सदा तिथिप्रियो रात्रावगदानां समाश्रयः तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् अधिरम्यवनोद्यानां नानानगरशोभिताम् अथा गदो न्यदिधि कश्चित् कदाचित्तस्य भेश्मनि नानौषधिप्रभावज्ञो मन्त्रविद्या विशारदः अभ्यर्थितस्तुतेनासौ श्रद्धाभूतेन चेतसा तस्या चख्यौ स रम्याणि नगराणि च वनानि नद्यशैलांश्च पुण्यान्यायतनानि च स तदो विस्मयाविष्टः प्राकृतं द्विजसत्तमम् अनेकदेशदर्शित्वेनादिश्रमसमन्वितः त्वं नादिवृद्धो वयसा नादिवृत्तश्च यौवनाद कथमल्पेन कालेन पृथिवीमडसि द्विज ब्राह्मण उवाच मन्त्रौषधिप्रभावेण विप्राप्रदिहदा गतिः योजनानां सहस्रं हि दिनार्थेन व्रजाम्यहम् मार्कण्डेय उवाच ततः स विप्रस्तम्भूय प्रत्युवाचेदमादराद श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चिदः मम प्रसादं भगवन् कुरु मन्द्रप्रभावजम् द्रष्टुमेदां मम महीमदीवेच्छा प्रवर्तते प्रादात्स ब्राह्मणश्चास्मै पादलेपमुदारधीः अभिमन्त्रयामासदिशं तेनाख्याताञ्च यत्नदः तेना पादोध। सद्विजो द्विजसत्तमहिमवमगा द्रष्टुं नानाप्रस्रवणान्वितं सहस्रं योजनानां हि दिनार्थेन व्रजामि यद् आयास्यामीदि सञ्चिन्त्य तदर्थेनापरेण हि सम्प्राप्तो हिमवत्पृष्टं नाधिश्रान्ततनुर्द्विज विचचार ततस्तत्र तुहिनाचलभूदले पादाक्रान्तेन तस्याध तुहिनेन विलीयत प्रक्षालितः पादलेपः परमौषधिसम्भवः ततो जडगदि सोऽध इतश्चेतश्च पर्यटन् ददर्शादिमनोज्ञानि सानूनि हिमभूभृतः सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च क्रीडाविहाररम्याणि देवादीनामितस्ततः दिव्याप्सरो गणशधैराकीर्णान्यवलोकयन् नातृप्यतद्विजश्रेष्ठप्रोद्भूतपुलको मुने क्वचित्प्रस्रवणाद्भ्रष्टजलपादमनोरमं प्रनृत्यचिकिके काभिरन्यतश्च निनादितं दात्यूहकोयष्टिकाध्यैः क्वचिचादिमनोहरैः पुंस्कोकिलकलाभै श्रुतिहारिभिरन्वितम् प्रफुल्लतरुगन्धेन वासिदानिलवीजितम् मुदा युक्तः स ददृशे हिमवन्दं महागिरिं दृष्ट्वा चैदम् द्विजसुतो हिमवन्दं महाचलं श्वो द्रक्ष्यामीदिसं मदिन्चक्रे मदिञ्चक्रे गृहम्प्रति बिभ्रष्टपादलेपोधचिरेण जडिदक्रमः चिन्तयामास किमिदं मया ज्ञानादनुष्ठिदम् यदि प्रलेपो यदिप्रलेपो नष्टोमे विलीनो हिमवारिणा शैलोदिदुर्गमश्चायं दूरञ्चाहमिहागतः प्रयस्यामि क्रियाहानिमग्निशुश्रूषणादिकं कथमत्र करिष्यामि सङ्कटं महदागतम् इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते शक्तदृष्टिरकं तृप्तिम् नयास्येब्दशतैरपि किन्नराणां कलालापात्समन्ताच्छ्रोत्रहारिणः प्रफुल्लतरुगन्धांश्च ख्राणमत्यन्तमृच्छति सुखस्पर्शस्तथा वायुफलानि रसवन्ति हरन्ति प्रसभं चेदो मनोज्ञानि शरांसि एवं गदेदुपश्येयं यदि कञ्चित्तपोनिधिं स ममोपदिशेन्मार्गं गमनाय गृहं प्रति मार्कण्डेय उवाच स एवं चिन्तयन् विप्रो बभ्राम हिमाचले भ्रष्टपादौषधिबलो वैक्लवं परमं गदः तं ददर्श भ्रमन्तं च मुनिश्रेष्ठं वरूधिनी पराप्सरा महाभागा मौलेया रूपशालिनी तस्मिन् दृष्टे ततः सा भूद्विजवर्ये वरूधिनी मदनाकृष्टहृदया सानुरागाहि तत्क्षणात् चिन्तयामास कोऽन्वेष रमणीयतमाकृतिः सफलं मे भवेज्जन्म यदि मां नावमन्यते अहोस्य रूपमाधुर्यमहोस्य ललितागतिः अहो गम्भीरदा दृष्ठे सदृशो भुवि दृष्टा देवास्तथा दैत्यासिद्धगन्धर्वपन्नगाः कथमे कोऽपि नास्त्यस्य तुल्यरूपो महात्मनः यथाहमस्मिन्मय्येष सानुरागस्तथा यदि भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपादयेत् कृतपुण्यानमत्तोऽन्या त्रैलोक्ये वनिता ततः मार्कण्डेय उवाच एवं सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा आत्मानं दर्शयामास कमनीयतराकृतिं तान्दु दृष्ट्वा द्विजसुतश्चारुरूपां वरूधिनीं सोपचारं समागम्य वाक्यमे ददुवाचः का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि नगरा नगरादरुणास्पदाद वादले मेध्वस्तो विलीनो हिमवारिणा यस्यानु मागदो मदिरेक्षणे वरुधिन्युवाच मौलेयाकं महाभागा नाम्नाख्यादा वरूधिनी विचरामि सदैवात्र रमणीये महाचले साकं त्वद्दर्शनाद्विप्रकामवक्तव्यतां वक्तव्यतांगदा प्रसाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ब्राह्मण उवाच येनोपायेन गच्छेयं निजगेहं शुचिस्मिते तन्ममाचक्ष्वकल्याणि हानिर्नोऽखिलकर्मणां नित्यनैमित्तिकानान्दो महानिर्द्विजन्मनः हा भवत्य तस्त्वं हे भद्रे मामुद्धर हिमालयात। प्रशस्यतेन प्रवासो ब्राह्मणानां कदाचम अपराधं न मे भीरुदेशदर्शनकौदुकं सदो गृहे द्विजाघ्र्यस्य निष्पत्तिसर्वकर्मणां नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः सात्वं किम् किं बहुनोक्तेन तथा कुरु यदा यथा नास्तं खेदसूर्ये पश्यामि निजमालयं वरूधिन्युवाच मैवं ब्रूहि महाभागमाभोत्स दिवसो मम मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि अहोरम्यतरस्वर्गो न द्विजनन्दन अदो वयं परित्यज्य तिष्ठमोऽत्रसुरालयं स त्वं सह मया कान्त कान्तेऽत्र तुहिनाचले रममाणो नमर्त्यानां बान्धवानां स्मरिष्यसि स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् दास्याम्यत्र तथा हन्ते स्मरेण वशगा हृदा वीणा वेणुस्वनं गीतं किन्नराणां मनोरमम् अङ्गाह्लादकरो नमुदगं शुचि मनोऽभिलषिदाशय्या सुगन्धमनुलेपनम् इहा सदो महाभाग गृहे निजेधिकं निजेऽधिगम् इहा सदो नैव कदाचित्ते भविष्यति त्रिदशानामियं भूमिर् यौवनोपचयप्रदा इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा आलिलिङ्गप्रसीदे वदन्ती कलमुन्मनाः ब्राह्मण उवाच मामाम् मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव सायं प्रादर्हृदं हव्यं लोकान् गच्छति शाश्वतान् त्रैलोक्यमेददकिलं मूठे यिव्ये प्रतिष्ठितम् वरूधिन्युवाच किं ते नाकंप्रिया विप्ररमणीयो न किं गिरिः गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कि कस्तव निजमालयमप्यस्माद्भवान् यास्यत्यसंशयं स्वल्पकालं मया सार्धं भुङ्क्ष्वभोगान् सुदुर्लभान् ब्राह्मण उवाच अष्टावात्मगुणाये हि तेषामादौ दया द्विजा तां करोषि कथं न त्वं मयि सद्धर्मपालकत्वद्विमुक्ता न जीवामि तथा प्रीतिमरीत्वयि नैदद्वदाम्यहं मिथ्याप्रसीद कुलनन्दन ब्राह्मण उवाच यदि प्रीतिमतीसत्यं नोपचाराद् ब्रवीषि मां तदुपायं समाचक्ष्व येनयामि स्वमालयं वरूधिन्युवाच निजमालयमप्यस्माद्भवान् यास्यत्यसंशयं स्वल्पकालं मया सार्धं भुङ्क्ष्वभोगान् सुदुर्लभान् ब्राह्मण उवाच न भोगार्थाय विप्राणां शस्य देहि वरूधिनी इह क्लेशाय विप्राणां चेष्टा प्रत्याफलप्रदा वरूधिन्युवाच सन्द्राणं म्रियमाणाय मम कृत्वा परत्र पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि एवं चद्वयमप्यत्र तवोपचयकारणं प्रत्याख्यानादकमृत्युं त्वं च पापमवाक्ष्यसि ब्राह्मण उवाच परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम तेन त्वां नाभिवाञ्छामि कामं विलपशुष्यवा मार्कण्डेय उवाच इत्युक्त्वा स महाभागस्पृष्ट्वापप्रयतश्रुचिः प्राकेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना भगवन् गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणां त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः युष्मदाप्यायनाद्देवा वृष्टिषस्यादिहेतवः भवन्ति शस्यादखिलं जगद्भवति नान्यतः एवं त्वत्त्वो भवत्येदध्येन सत्येन वै जगद तदाकमध्यस्वं गेहं पश्येयं सदि य वै वैदिक कर्म स्वकाले नोच्छिद माया तेन सत्यन पश्येयं गृहस्थ दिवाकम यद्रव्यरदारे चे मे कदाचिलाषा भूतमेद यीमार्कंडेयपुराणे ब्राह्मणवाक्यम ओम